ललितासहस्रनामस्तोत्रम् न्यास्तः अस्य श्रीलितासहस्रनामस्तोत्रमादामन्द्रस्य वशिन्यादिवाग्देवता ऋषयः अनिष्ठुप्छन्दः श्रीलितापरमेश्वरी देवता श्रीमद्वाग्भवकूडेदिबीजम् मध्यकूटेदिशक्रिश्रिकूटे की कीलकलिदात्रिपुर सुंदरी प्रसाद सिद्धिद्वार चिंत भला व्पे जपे विनियग ध्यान सिंदूरारुण त्रिनयनां। माणिक्यमौलिः स्फुरतारानायक शेखराम् स्मिदमुखीमापीनवक्षोरुहाम् पाणिभ्यामलिपूर्णरत्नचषकम् रक्तोत्पलम् बिभ्रतीम् सौम्याम् रत्नकठस्थरक्तचरणान् ध्यायेत्परामम्बिकाम् अरुणाम् करुणा तरङ्गिदाक्षीम् धृतमाशाङ्कुशपुष्पबाणचापाम् अणिमादिभिराम् मयूखैराहमित्येव विभावये भवानीम् ध्यायेत्पद्मासनस्थाम् विकसितवदनाम् पद्मपत्रायताक्षीम् हेमाभाम् पीतवस् म् करकलिदलसद्धेम पद्माम् वराङ्गीम् सर्वालङ्कारयुक्ताम् सततमभयदाम् भक्तनम्राम् भवानीम् श्रीविद्याम् शान्तमूर्तिम् सकलसुरनुताम् सर्वसम्पत्प्रदात्रीम् सकुङ्कुम विलेपना मलिकचुंबि कस्तूरिगा सदसिदेक्षणा सशरचापाशाकुशा अशेषजनमोिनी मरुमाल्यभूषाबरा जपा कुसुम भासुरा जप विध स्म चळिदासहस्रनामस्तोत्रम् श्रीमादा श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी चिदग्निकुण्डसम्भूदा देवकार्य समुद्यदा उद्यद्भानुसहस्राभा च दुर्बाहुसमन्विता रागस्वरूपभाषाढ्याक्रोदाकाराङ्कुचोज्ज्वला मनोरूपेक्षु को दण्डावञ्चधन्मात्र सायका विचारुणप्रभावो रमज्जद्ब्रह्माण्डमण्डला चम्बकाशोगपुन्नागसौगन्धिकलसत्कचा गुरुविन्दमणिश्रेणीकनकोडीरमण्डिदा अष्टमी खचन्द्रकळङ्कावमृगनाभिविशेषका वदन स्मर माङ्गल्यगृहतोरणचिल्लिका वक्त्रलक्ष्मीपरीवाह चलन्मीनाभलोचना नवचम्बकपुष्पापनासा दण्डविराजिता ताराकान्ति तिरस्कारि कदम्ब मञ्जरी क्लुप्तकर्णपुरमनोहरा काडङ्गयुगलीभूतनोदुपमण्डला पद्मरागशिलादर्श परिभावि कपोलभूः नवविद्रुमबिम्बश्रेण्यकार्युरदनच्छदा शुद्धविद्याङ्गुराकारद्विजपङ्क्तिद्वयोज्ज्वल कर्पूरवीडिगामोदसमाकर्षि दि गन्धरा निजसल्लाभमाधुर्य विनिर्भत्सित कच्छी मन्दस्मितप्रभा भूरमज्जत्कामेश मानसा अनाकलित सादृश्य चिभुग श्रीविराजिता कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा कनकाङ्गदकेयूरकमनीय भुजान्विता रत्नग्रैवेय चिन्ता गलोलमुक्ता फलान्विता कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी नाध्यालवालरोमालिलता फलभुजद्वयी लक्ष्यरोमलदाधारतासमुन्नेय लन्मध्य पठबन्धबलित्रया अरुणारुण कौसुम्भवः प्रभास्वत्कडीदडी रत्न इन्द्रगोपपरिक्षिप्त स्मरदूणाभजङ्गिका गुढगुल्फा कूर्मपृष्टजयेष्णो प्रपदान्विदा नगदी मराळीमन्दगमनमहालावण्यशेवधिः सर्वारुणानवद्याङ्गी सर्वाभरणभूषिता शिवकामेश्वराङ्गस्ता शिवा, शिवा स्वाधीनवल्लभा सुमेरुमद्यशृङ्गस्था श्रीमन्नगरमायिका चिन्तामणि गृकान्धस्ता ब्रह्मासनस्तिदा, महापद्मादवी संस्था कदम्बवनवासिनि का सुधासागरमध्यस्था कामाक्षी कामदायिनि देवर्षिगणसङ्घादस्तूयमानात्मवैभवा भण्डासुरवधोद्युक्तशकृसेना समन्विता सम्बत्करी समारूढसिधुरव्रजसेविदा अश्वारूढाधिष्ठिदाश्वकोटिकोटिभिरावृदा चक्रराजरधारूढसर्वायुधपरिष्कृता जेयचक्ररथारूढमन्त्रिणी परिसेविदा किरिचक्ररधारूढदण्डमादा पुरस्कृता ज्वालामालिनि काक्षिप्तवन्नि प्राधारमद्यगा बण्ड सैन्यवधोद्युक्तशक्तिविक्रम हर्षिद नित्यापराक्रमाडोपनिरीक्षणसमुत्सुग बण्डपुत्रवधोद्युक्त बाला विक्रमनन्दित मन्त्रिण्यम्बा विरजित विषङ्गवध तोषिद विचुक्र प्राणहरणवाराही वीर्यनन्दित कामेश्वरमुखालोकल्पित श्रीगणेश्वरा महागणेश निर्भिन्न विघ्नयन्द्र प्रकर्षिद भण्डासुरेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्रवर्षिणी कराङ्गुलि नखोत्पन्ननारायण महापाशुपदास्त्राग्निर्दग्धासुरसैनिका कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभव हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः श्रीमद्वाग्भवगूढैगर्स्वरूपमुखपङ्कजा खण्डाधिपर्यन्तमध्यकूडस्वरूपिणी शक्तिकूडैकतापन्न कठ्यतोभागधारिणी मूलमन्त्रात्मिका मूलकूटत्रयकले वरा कुलामृदैकरसिकाकुलसङ्केतबालिनी कुलाङ्गना कुलान्धस्ता कौलिनी कुलयोगिनी अकुला समयान्तस्ता समयाचारतत्परा मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनीः मणिपूरान्तरुदिदा विष्णो ग्रन्थिविभेदिनी आज्ञाचक्रान्तराळस्ता रुद्रग्रन्थिविभेदिनी सहस्राराम्बुजारूढा सुदासाराभिवर्षिणि तडिल्लता समरुजिषट्चक्रोवरि संस्थिता महासक्तिकुण्डलिनी विसदन्दुदनीयसी भवानी भावनागम्या भवारण्यकुकारिका भद्रप्रिया भद्रमूर्तिर्भद्रसौभाग्यदायिनी भक्रिप्रिया भक्रिगम्या भक्रिवश्याभयाभः शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी शाङ्करी श्रीकरी साध्वी शरश्चन्द्रनिभानना शादोदरी शान्तिमदी निराधारा निरञ्जना निर्लेवा निर्मला नित्या निराकारा निराकुला निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा नित्यमुक्त्रा निर्विकारा निष्प्रपञ्चा निराश्रया नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्धरा निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा निरागारागमदना निर्मदा मदनाशिनी निश्चिन्ता निरहङ्कारा निर्मोहामोहनाशिनि निर्ममा मम दातन्ध्री निष्पाभाशिनि निष्क्रोधाक्रोधशमनि निर्लोभालोभनाशिनि निःसंशया संशयाग्निर्भवा भवनाशिनी निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी निर्नाशा मृत्युमदनी निष्क्रिया निष्परिग्रहा निस्तुला नीलचिकुरा निरपाया निरत्यया दुर्लभा दुर्गमा दुर्गा दुःखकन्द्री सुखप्रदा दुष्टदू दुराचारशमनी दुरा दोषवर्जिता सर्वज्ञा सान्द्रकरुणा सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी माहेश्वरी महादेवी महालक्ष्मीर्मृदप्रिया महारूपा महापूज्या महापादनाशिनी महामायामहासत्त्वा महाशक्तिर्महारधिः महाभोगामकैश्वर्या महावीर्या महाबला महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी महातन्द्रामहामन्द्रामहायन्द्रामहासना महायागक्रमाराध्या महाभैरवपूजिदा महेश्वरमहाकल्पमहाकाण्डवसाक्षिणी महाकामेशमहिषी महात्रिभुरसुन्दरी चतुष्षष्ट्युगताराढ्या चतुष्षष्टिकलामयी महाचतुष्षष्टिकोटियोगिनी गणसेविदा मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यदा चारुरूपा चारुवासा चारुचन्द्र कलाधरा चराचर जगन्नाभा चक्रराजनिकेतना पार्वती पद्मनयना पद्मरागसमप्रभा पञ्चप्रेदासनासीना पञ्चब्रह्मस्वरूपिणी चिन्नयी परमानन्दा विज्ञानघनरूपिणी ज्ञानद्याधृध्येयरूपा धर्मा धर्म विवर्जिता विश्वरूपा जागरिणी स्वपन्दितैजसात्मिका सूक्ता प्राज्ञात्मिका तुल्या सर्वावस्था विवर्जिता सृष्टिकर्त्री ब्रह्मरूपा गोत्री गोविन्दरूपिणी संहारिणी रुद्ररूपा तिरोदानकरीश्वरी सदाशिवानुग्रसदा पञ्चकृत्यपरायणा भानुमण्डलमध्यस्था भैरवी भगमालिनी पद्मासना भगवती पद्मनाभसहोदरी उन्मेष निमिषोत्पन्नविभन्नभुवनावळी सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् आ ब्रह्मगीड जननी वर्णाश्रम विधायिनी निजाज्ञारूपनिगमा पुण्या पुण्यफलप्रदा श्रुतिश्रीमन्दसिन्दूरीकृतपादाब्जधूलिका सकलागम सन्दोहशुक्रि शम्बुड मौपिका पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी अम्बिदानादिनिधना हरिब्रह्मेन्द्रसेविता नारायणी नादरूपा मामरूप विवर्जिता ह्रीङ्गारी ह्रीमदी हृद्या हेयोवर्जिता राजराजार्चिता राज्ञी रम्या रञ्जनीरमणीरस्यारणिणि मेखला रमाराकेन्दुवदना रवा रदिप्रिया यक्षागहि राक्षसग्नी रामा रमणलम्बडा काम्या कलावदी कला लाभा कान्दा कादम्बरी प्रिया वरदा वामनयना वारुणी मदविह्वला विश्वाधिका वेदवेद्या विन्द्याचलनिवासिनी विधात्री वेदजननी विष्णुमाया विलासिनी क्षेत्रस्वरूपा क्षेत्रे श्रीक्षेत्रक्षेत्रज्ञपालिनी क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता विजया विमला वन्द्या वन्दारुजनवल्सला वाग्वादिनी वामदेशी वह्निमण्डलवासिनी भक्तिमत्कल्पलधिका पशुपाशविमोचिनी संहृताशेषा सदाचारप्रवर्तिका तावत्त्रयाग्नि सन्दप्तसमाह्लादनचन्द्रिका तरुणी पदलक्ष्यार्थाचिदेवरसरूपिणी स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः पराप्रत्यक्षिदिरूपा पश्यन्ती परदेवता मध्यमा वैकरीरूपा भक्रमानससंसिका आमेश्वरप्राणनाडीकृतज्ञाकामपूजिता शृङ्गाररसम्पूर्णा जया जालन्धरस्थिदा वो ज्ञानपीडनिलया बिन्दुमण्डलवासिनी रपोयागक्रमाराध्या रकस्तर्पणतर्पिता सव्यप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता षडङ्गदेवतायुक्ता षड्गुण्यपरिपूरिता नित्यक्लिन्यानिरुपमानिर्वाणसुखदायिनी नित्या षोडशिकारूपा श्रीखण्डार्थशरीरिणी प्रभावरी प्रभारूपा प्रसिद्धा परमेश्वरी मूलप्रकृतिरव्यक्ता व्यक्ता व्यक्तस्वरूपिणी याविनी विविधा तारा विद्या विद्यास्वरूपिणी महाकामेश नयनकुमुदाह्लादकौमुदी भक्तहार्दतमो शिवाराध्या शिवा शिवमूर्ति शिवंगरी। शिवप्रिया शिवपराशिष्टेष्टाशिष्टपूजिदा अप्रमेया स्वप्रकाशा मनो वाजामगोचरा चिच्छक्तिच्छेदनारूपा जडशक्तिर्जडात्मिका गायत्री सत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता निस्सीमहिमा नित्ययौवना मदशालिनी मद कूर्निद रक्ताक्षी मदपाडलगण्डभूः चन्दनद्रव दिग्धाङ्गी चाम्बेयकुसुमप्रिया कुशला कोमलाकारा कुरुकुल्लाकुलेश्वरी कुलकुण्डालया कौलमार्गतत्परसेविता कुमारगणनादाम्बा तुष्टिपुष्टिर्मदिर्धृतिः शान्तिस्वस्तिमदी कान्तिर्नन्दिनी विघ्ननाशिनी तेजोवतीत्रिनयनालोलाक्षी कामरूपिणी मालिनी कंसिनी मातामलया चलवासिनी सुमुखीनलिनी सुभ्रूशोभनासुरनायिका कालकण्डी कान्तिमदी शोभिणी सूक्ष्मरूपिणी वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता सिद्धेश्वरी सिद्धविद्या सिद्धमादा यशस्विनी विशुद्धिचक्रनिलया रक्तवर्णा त्रिलोचना घ्वाङ्गादिप्रकरणा वदनैकसमन्विता पायसान्नप्रिया त्वक्ता पशुलोकभयङ्करी अमृतादिमहाशक्तिसंहृदा दागिनीश्वरी अनाहदाब्जनिलया श्यामावा वदनद्वया भ्रंष्ट्रोज्ज्वलाक्षमालादिधरा रुधिर कालरात्र्यादिशक्र्यौघवृथा का स्निग्धौ धनप्रिया महावीरेन्द्र वरदारागिण्यम्बास्वरूपिणी मणिपुराजनिलया वदनत्रयसंयुधा वज्रादिकायुधो वेदा डा मर्यादिभिरावृदा रक्रवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा समस्तभक्त्रसुखदालागिन्यम्बास्वरूपिणी स्वाधिष्ठानाम्बुजगदा चतुर्वक्रमनोहरा शूलाध्यायुधसम्पन्नाभिधवर्णादिगर्विदा मेधोनिष्ठा मधुप्रीता बन्दिन्यादिसमन्विता दर्जन्ना सक्तहृदया कागिनी रूपधारिणी मूलाधाराम्बुजारूढा पञ्चवक्त्रास्ति संस्थिता अङ्कुशादिप्रकरणा वरदादिनिषेविदा मुद्गौदनासक्तचित्ता हरिद्रा न्यैकरसिकागिनीरूपधारिणी सहस्रदलपद्मस्ता सर्ववर्णोपशोभिता सर्वायुधा शुक्लसंस्थिता सर्वतोमुखी सर्वौदनप्रीतचित्ता यागिन्यम्बा स्वरूपिणी स्वाहा स्वधामधिर्मेधा श्रुति स्मृतिरनुत्तमा पुण्यकीर्तिः पुण्यलब्ध्या पुण्यश्रवणकीर्तना पुलोमजार्जिता बन्धमोचिनी बर्बराळका विमर्शरूपिणी विद्या विजदादिजगत्प्रसूः सर्वव्याधिप्रशमनि सर्वमृत्युनिवारिणि अग्रगण्या चिन्त्यरूपा कलिकल्मषनाशिनी हात्यायनी कालरन्त्री कमलाक्षनिषेविदा ताम्बूलपूरितमुखी दाडिमी कुसुमप्रभा मृगाक्षी मोहिनी मुख्या मृदानी मित्ररूपिणी नित्यतृप्ता भक्रनिधिर्नियन्त्री निखिलेश्वरी मैत्र्यादिवासनालभ्या महाप्रलय साक्षिणी पराशक्ति परानिष्ठा प्रज्ञानघनरूपिणी माध्वीपानालसामत्ता मातृगावर्णरूपिणी महाकैलासनिलया मृणालमृदुदोर्लता महनीया दया मूर्तिर्महासाम्राज्यशालिनी आत्मविद्या महाविद्या श्रीविद्या कामसेविदा श्रीषोडशाक्षरी विद्या तृगूडाकामकोडिका कटाक्षतिङ्करीभूतकमला कोटिसेविता शिरस्थिता चन्द्रनिभा फालस्तेन्द्रधनुप्रभा हृदयस्तारविप्रख्यातृगोणान्तरदीपिका दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी धरान्दोलित दीर्घाक्षी धरहासोज्वलन्मुखी गुरुमूर्तिर्गुणनि दीर्घो मादा गुहजन्म भूः देवेशी दन्दनीदिष्टा दहराकाशरूपिणी प्रतिपन्मुख्य रागान्ददिमण्डलपूजिता कलात्मिका कला माधा काव्यालाभविनोदिनी स चामरमा वाणी सव्यदक्षिणसेविदा आदिशक्तिरमेयात्मा परमाभावनाकृतिः अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा क्लीकारी केवला गुह्या कैवल्यपददायिनी त्रिपुरा त्रिजगद्वन्द्व्या त्रिदशेश्वरी र्यक्षरी दिव्यगन्धाढ्या सिन्धूरभिलकाञ्चिदा उमाशैलेन्द्रतनया गौरी गन्धर्वसेविता विश्वगर्भा स्वर्णगर्भा वरदा वागधीश्वरी ज्ञानगम्या परिच्छेद्या ज्ञानदा ज्ञानविग्रहा सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी लोभामुद्रार्चिता लीला क्लुप्त ब्रह्माण्डमण्डला अदृश्यादृश्यरहिता विज्ञात्रिवेद्यवर्जिता योगिनी योगदा योग्या योगानन्दा युगन्धरा इच्छा शक्तिज्ञानशक्तिक्रिया शक्तिस्वरूपिणी सर्वाधारा सुप्रसिष्टा अष्टमूर्तिरजा जैत्री लोकयात्राविधायिनी एकाकिनी भूमरूपा निर्द्वैतद्वैतवर्जिता अन्नदा वसुधा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया भाषारूपा बृहत्सेना भावा भावविवर्जिता सुकाराद्या शुभगरी शोभना सुलभागरिः राजराजेश्वरी राज्यदायिनी राज्यवल्लभा राजकृपा राजपीड निवेशिदनिजा साम्राज्यदायिनी सत्यसन्धासागरमेखला दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी सर्वात्वदात्री सावित्री सच्चिदानन्दरूहिणी सा वेषकाला परिच्छिन्ना सर्वगा सर्वमोहिनी सरस्वतीशास्त्रमयी गुहाम्बा गुह्यरूपिणी सर्वोपाधिविनिर्मुक्ता सदा शिवपतिव्रता सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी कुलोत्तीर्णाभगाराध्या मायामधुमधीमही गणाम्बा गुह्यताराध्या कोमलाङ्गी गुरुप्रिया स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी सनदादिसमाराध्या शिवज्ञानप्रदायिनी चित्कलानन्दकलिका प्रेमरूपा प्रियङ्गरी नामपारायणप्रीदानन्दिविद्यानडेश्वरी मिथ्या जगदधिष्ठानामुक्रिदामुक्रिरूपिणी दास्यप्रियालय हरीलज्जारम्भाभिवन्दिदा भवदा वसुधा वृष्टिक्पावारण्य दवानला दौर्भाग्यतूलवादूला जरा द्वान्धरविप्रभा भाव्याब्धिचन्द्रिका भक्तचित्तकेजि कना कना रोगपर्वतरम्भो निर्मृत्युदारुकुपायिका महेश्वरी महाकाली महाग्राका महाशना अपर्णा चण्डिका चण्डमुण्डासुरमिषूदिनी शराक्षरात्मिका सर्वलोके हि विश्वधारिणी त्रिवर्गदात्री तुभगात्र्यम्बदा त्रिगुणात्मिका स्वर्गापवर्गदा शुद्धा जपा पुष्पमिभा कृः ओजो वीद्युदितरा यज्ञरूपा पाडली कुसुमप्रिया महती मेरुनिलया मन्दारकुसुमप्रिया वीराराध्या विराड्रोवा विरजा विश्वतोमुखी प्रत्यग्रोवा पराकाश प्राणदा प्राणरूपिणी मार्ताण्डभैरवा राज्ञा मन्त्रिणी न्यस्तराज्यदूः त्रिपुरे जजत् सत्यनंद कामर परायण कपर्दीनी कला काम दुख कामिणी कला निधि काव्यकना पूज्या पुष्क पुष्क परञ्ज्योति परं धाम परमाणुपरात्परा पाशकस्ता पाशकन्द्री परमन्त्र विभेदिनी मूर्ता मूर्ता नित्यतृप्ता मुनिमानसहंसिका सत्यव्रता सत्यरूपा सर्वान् धर्यामिनी सती ब्रह्माणि ब्रह्मजननी बहुरूपा बुधार्चिता प्रसवित्री प्रचण्डाज्ञा प्रदिष्टा प्रकटा कृतिः प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी विशृङ्खला विविक्तस्ता वीरमाधा वि यत्प्रसूः मुकुन्दा मुक्तिनिलया मूलविग्रहरोपिणी भावज्ञा भवरोग्नी भवचक्रप्रवृत्तिनि छन्दःसारा शास्त्रसारा मन्त्रसारा कलोदरी उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी जन्म मृत्युजरा तप्तजनविश्रान्तिदायिनी सर्वोपनिषदुत्कृष्टा शान्त्यतीतकलात्मिका गम्भीरा गगनान्तस्तागर्विदा कल्पनारहिता काष्ठा कान्ता कान्तार्धविग्रहा कार्यकारणनिर्मुक्ता कामकेलिदरङ्गिदा अजाक्षय विनिर्मुक्ता मुग्धाक्षिप्रसादिनि अन्तर्मुख समाराध्या बहिर्मुख सुदुर्लभा रयीत् त्रिवर्गनिलया त्रिस्ता त्रिपुरमालिनि निरामया निरालम्बा स्वात्मा रामा सुधा श्रुतिः संसारपङ्गनिर्मग्नसमुद्धरणपण्डिता यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणि कर्माधाराधनाध्यक्षा धना विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणि विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी अयोनिर्योनिनिलया कूढस्थाकुलरूपिणी वीरगोष्ठिप्रिया वीरा, वीरा नैष्कर्म्या नादरूपिणी विज्ञानकलनाकल्या विदग्धा बैन्दवासना तत्त्वाधिका तत्त्वमयी तत्त्वमर्धस्वरूपिणी सामदानप्रिया सौम्या सदा शिवकुटुम्बिनी सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणि स्वस्था स्वभावमधुराधीराधीर समर्चिता चैतन्यार्ख्यसमाराध्या चैतन्यकुसुमप्रिया सदो दिदा सदा दुष्टा तरुणादिपादला दक्षिण दक्षिण राध्या दर स्मेर मुकांबुजा कौली कवलाना कवल्यप दिनी स्त्रोत्र प्रिया स्तुति मदी श्रुति संस्तुत वैभवा मन मानवती महेशी मंगलाकृति विश्वमादा जगद्धात्री विशालाक्षी विरागिणी प्रगल्भा परमोदारा परामोदा मनोमयी व्योमगेशी विमानस्था वज्रिणी वामगेश्वरी पञ्चयज्ञप्रिया पञ्चप्रेतमञ्जाधिशायिनी पञ्चमी पञ्चभूदेशी पञ्चसङ्ख्योपचारिणी शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी धराधरसुधाघन्या धर्मिणि धर्मवर्धिनी लोकादीदा गुणादीदा सर्वादीदा शमात्मिका बन्धो गकुसुमप्रख्या बाला लीला विनोदिनी सुमङ्गली सुखदरी सुवेशाड्या सुवासिनी सुवासिन्यार्चनप्रीता शोभना शुद्धमानसा बिन्दुतर्पण सन्तुष्टा दशमुद्रासमाराध्यात्रिपुरा श्रीवशङ्करी ज्ञानमुद्राज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी योनिमुद्रा त्रिकण्डेशी त्रिगुणाम्बा तृगोणगा अनगाद्बुतचारित्रा वाञ्चरितार्थप्रदायिनी ज्ञादा शदध्वादीदरूपिणी अव्याज करुणामूर्तिरज्ञानध्वान्ध दीपिका आबालगोपविदिदा श्रीचक्रराजनिलया श्रीमत्पुरसुन्दरी श्री ललिताम्बिका येवं श्रीलितादेव्या नाम्नां साहस्रदं जगुः